श्रीमद्भागवतमहापुराणम् एकादशस्कन्ध एकादशोऽध्यायः उद्धौ उवाच साधुस्तवोत्तमश्लोकमतकीदृबिम्बिग् प्रभो भक्ते त्वयोपयुज्येत एतन्मे पुरुषाध्यक्ष लोकाध्यक्ष जगत्प्रभो प्रणतायानुरक्ताय प्रपन्नाय च कथ्यतां त्वं ब्रह्मपरमं व्योम पुरुषप्रकृते परः अवतीर्णोऽसि भगवन् सेक्षोपाद पृथग् वपु श्रीभगवानुवाच कृपालुरङ्कृद्रोहस्तुतिक्षु सर्वदेशिनाम् सत्यसारो न मद्यात्मा सम सर्वोपकारकः कामैरहत धीरदान्तो मृदु सुचिरकिञ्चनः अनीहो मृतभुक्षान्तः शिरोमच्छरणो मुनिः अप्रमत्तो गभीरात्मा धृतिमाञ्जितषण्मुगुणः अमानीमानदकल्पो मैत्रकारुणिककविः आज्ञायैवं गुणान् दोषान्मया दृष्टानपि श्लोकान् धर्मान् सन्तर्जय सर्वान् मां भजेत स सत्तमः ज्ञात्वा ज्ञात्वा स एव मां यावाञ्जश्चास्मि यादृशः भजन्तनन्यभावेन ते मे भक्ततमामताः मल्लिङ्गमद्भक्तजनदर्शनस्पर्शनार्चनं परिचर्यास्तुति प्रभुवन् गुणकर्मानुकीर्तनम् मत्कथाश्रवणो श्रद्धां मदनुध्यानमुद्धव सर्वलाभोपहरणं दासेनात्मनिवेदनं मज्जन्मकर्मकथनं मम परवानुमोदनम् गोषे गीतताण्डववादिन्त्रगोष्ठीभिर्मद्गृहोत्सवः यात्रा बलिविधानं च सर्ववार्षिकपर्वशो वैदिके तान्त्रिके दीक्षा मदीयवृतधारणम् ममार्चा स्थापने श्रद्धा सुत सन्धत्य चोद्यमः उद्यानोपवना क्रीड पुरमन्दिरकर्मणि सम्मार्जनोपलेपाभ्यां सेकमण्डलवर्तनैः गृहशुश्रूषणं मह्यं दासवदं यद् माययाम् अमाणित्वम् अलम्भित्वं कृतस्यापरिकीर्तनम् अपि देपावलोकं मेनोपयुज्यान् निवेदितं यद्यदेष्टतमं लोके यच्चा ते तत् निदेव निवेदयेन्मह्यं तदानन्त्याय कल्पते सूर्योऽग्नेर्ब्राह्मणो गावो वैष्णमखं मरुज्ज्वलं भूरात्मा सर्वभूतानि भद्रपूजापदानि मे सूर्ये तु विद्या त्रैयाह्य विशाग्नो यजेतमाम् आतिथ्येन तु विप्राग्रये गोष्वङ्गयवसादिनाम् वैष्णवे बन्धुसत्कृत्याशिदिखे ध्याननिष्ठयां वायौ मुख्यधियातो ये द्रव्यैस्तोयपुरस्कृतैः तण्डुले मन्त्रहृदयैर्भोगैरात्मानमात्मने क्षेत्रज्ञं सर्वभूतेषु समत्वेन यजेत मां धृष्णयेष्वेष्विति मद्रूपं शङ्खचक्रगदाम्बुजैः युक्तं चतुर्भुजं शान्तं धायन्नर्चे समाहितः इष्टापुरतेन यो यजेत समाहितः लभते मयि सद्भक्तिं तस्मृते साधुसेवयां प्रायेण भक्तियोगेन सत्सङ्गेन विनोद्भवं नोपायो विद्यते सन्धयङ्गप्रायणं हि सतामहम् अथैतत्परमं गुह्यं तृण्वतो यजुनन्दनं सुगोप्यम् अपि वक्ष्यामि त्वं मे भृद्य श्रीः सखाम् श्रीमद्भागुते महापुराणे पारमहंसां सैतायां एकादशस्कन्धे एकादशोऽध्यायः